मुद्गलपुराणं खण्डं त्रिमहोदरचरितम् अध्यायं तर्टि फोर् कृतवीर्यचरितं श्रीगणेशाय नमः मुद्गल उवाच वर्षमात्रव्रतेनैव गदं पापं लयं महद द्वादशब्रह्महस्त्याख्यं ततो राजा बभौ विधे ससत्त्वा भून् सुशुवे शुभवेलायाम् पुत्रं तेजस्विनां वरं हस्तपादविहीनं तं दृष्ट्वा मादा रुरोदः कृतवीर्यस्तदा सर्वै प्रधानै बोधितो भवद त्यक्त्वा शोकं स्वयं राजा जातकर्मचकार वै महोत्सवयुतैः सर्वैर्नगरे संस्थितो भवदौ स्वप्ने ददर्शासौ दत्तात्रेयं च योगिनं तेन स्वप्ने तच्छृणुष्व प्रजापदे गदे द्वादशवर्षे तु त्वत्पुत्रस्य नृपोत्तम आगमिष्यामिते ते गेहं साङ्गम् पुत्रं करोम्यहम् मा चिन्तां कुरु राजेन्द्रगणनाथप्रसादजः पुत्रोयं ते सुतेजस्वी देवमान्यो भविष्यति ततः सोऽन्तर्दधे योगी दत्तात्रे यस्तथा प्रबुद्धो हर्षयुक्तः स बभूव गणपं स्मरन् ततस्तेन पृथिव्यां तु घोषः सर्वत्र कारितः चतुर्थ्यां कृष्णपक्षस्य व्रतं कार्यं जनैः सदा येन व्रतमिदं नैव कृतं चेत्तं निहम्यहम् चाण्डालादिद्विजान्तास्ते व्रतं चक्रुर्विशेषदः अष्टवर्षसमयुक्ता नरात् नाय स्ममानद अकुर्वन् विधिवत् सर्वे व्रतं गाणेश्वरं महद तस्य राज्ये नरकोऽपि दुःखयुक्तो बभूवन न तद्वद्रोगादिकभयं नहि ततो द्वादशवर्षेषु गदेषु स जगामः दत्तो योगीन्द्रसेव्यश्च तं नाम नराधिपः पूजिदो भोजितस्तेन वचो दत्तस्तमब्रवीद पुत्रं दर्शयते राजन्नद्भुतं द्रष्टुमागतः ततः सहर्षिदो राजा ददौ पुत्रं च तत्करे अङ्गे सङ्गृह्य योगीन्द्रो राजानं प्रत्युवाचः राजन्व्रतं त्वया तत्राङ्गहीनत्वमजानद कृतं तु तेन ते प्रबभूवः व्रतस्य जागरि राजन् दृम्भितं च पुनः पुनः त्वया नाचमनं तत्रकृतं कृतं तेनायमीदृशः व्रतस्यायं प्रभावेण विष्णुः साक्षान्नराकृतिः पुत्रो विख्याद विख्यातप्रभविष्यति तद एकाक्षरं मन्त्रं ददौ तस्मै महामुनिः विधियुक्तं गणेशस्य कार्तवीर्याय धीमदे अनुष्ठानं समादिश्य द्वादशाब्दमयं प्रभुः अन्तर्धानं चकारासौ राजा संहर्षितोऽभवद प्रवालक्षेत्रसानिध्ये वने व्याघ्रादिसंयुधे राजा बभुव संस्थाप्य जनैः पुत्रं च दुःखितः ततश्च कार्तवीर्येण तपस्तप्तं सुदारुणं वायुमात्रा शनेनैव ध्यात्वा हृदि गजाननं मन्त्रं जजाप दक्ष हस्तपादविवर्जितः देहभावमधिक्रम्य संस्थितः काष्ठवद्बभौ तपःप्रभावतस्तस्य वने निर्वैरभावतः प्राणिनः सञ्चरन्ति स्म गजसिंहादयः सदा एवं द्वादशवर्षाणि गतानि तपसो यदा तदा तत्रायययौ ढुण्डिर्भक्तं परमभाविकं तडागमध्यभागतं निःसृतं गणपं नृपः दृष्ट्वा ननामविघ्नेशं पूजयन् भक्तिसंयुधः हर्षेण महदायुक्तस्तं तुष्टाव गजाननम् सरो माञ्चो महावीर्यः कार्तवीर्यो महायशाः कार्तवीर्य उवाच नमस्ते गणनाथाय विघ्नेशाय नमो नमः विनायकाय देवेश सर्वेषां पदये नमः निर्गुणाय परेशाय परात्परतराय वै अनादये च सर्वादिपूज्याय तु नमो नमः सर्वपूज्याय केरम्पदीनपालाय ते नमः ब्रह्मणे ब्रह्मणां चैव ब्रह्मदात्रे नमो नमः निराकाराय साकाररूपाय परमात्मने योगाय योगधात्रे ते शान्तिरूपाय वै नमः सदा ज्ञानखनायैव कर्ममार्गप्रवर्तिने आनन्दाय सदानन्दकन्दय ते नमः रजसासृष्टिकर्त्रे ते सत्वधपालकाय च तामसेन प्रसंहर्ते गुणेशाय नमो नमः नानामायाधरायैव नानामायाविवर्जित मायिभ्यो मोहदात्रे वै माया मायिकते तुभ्यं स्वानन्दपदयेतुभ्यं बुद्धि च सिद्धिबुद्धिप्रदात्रे च लम्बोदरनमोऽस्तुदे किं स्तौमि गणनाधत्वां यत्र वेदा वेदाविसिस्मिरे शिवविष्णवादयश्चैव योगिनो योगरूपिणं जगादगणनाधस्तु ततस्तं भक्तमुत्तमम् वरं वृणुमहाभाग कार्थवीर्यहृदीप्सिदम् त्वया कृदं मदीयं यत् स्तोत्रम् सर्वप्रदम् भवेद अङ्गहीनस्य सर्वस्य स्वङ्गदम् प्रभविष्यति कृत्वा भावेन मत्पूजां नरस्तोत्रमिदम् पठेद तस्य साङ्गम् सदा सर्वम् करोमि स्तोत्रपाठतः जिख भुक्त्वा किलान् भोगान् पुत्रपौत्रादिसंयुधः अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति ततस्थं कार्तवीर्यश्च जगादगणनायकं हर्षयुक्तो महाभक्तो भक्तेशं भक्तवत्सलम् कार्तवीर्य उवाच किम् वृणोमि गणाधीश सर्वं मायामयं विभो तव दर्शनमात्रेण मया ज्ञातं न संशयः सुहृदां तदपि स्वामिन् सन्तोषार्थं वृणोम्यहं शरीरे चारुदां देहि भक्तिं त्वच्चरणे प्रभो यद्यदिच्छामि तत्तच्च सुलभं मे गजानना भवदुत्वत्प्रसादेन राज्यं पूर्णं प्रदेहि च अस्मिन् क्षेत्रे स्थिरो भूत्वा भक्तान् पालय विघ्नपधर्मार्थकाममोक्षादिब्रह्म भूयप्रदं कुरु प्रवालमयरूपेण मया प्रवालक्षेत्रमित्युक्तं नाम्ना भवतु नित्यदा सदा विजयसंयुक्तं सहस्रभुजसंयुतं विष्णुतुल्यपराक्रमं मदीयसेवनं देवदेववच्च सदा मंत्री चेनाधमुप्रसाद मदीयस्म गात कु न भवेत्किला ततस्तं ततस्थ गणनाथ सधेदि सर्वंते ते मत् प्रसादान्नसंशयः मदीयस्मरणेनैव मन्त्रादीनां प्रसेवया निर्विघ्नं तेजराजेंद्र निरन्तरं यवमुक्त्वा गणेशस्तमन्तर्धानं जगामहा ततस्तस्य प्रजानाथ देहसाङ्गो बभूवः सहस्रभुजसंयुक्तो बभूव पदसंयुतः महाबलो महावीर्यस्तेजसा संयुधो भवद तत्र देवादयो जग्मुर्दर्शनार्थं नृपस्य च साक्षाद्विष्णुकलांशेन कार्तवीर्यो बभौ तदा ततस्तेन द्विजयि सार्धं स्थापिता मूर्तिरादराद गणेश्वरस्य तां राजा पूजयेद्भक्तिसंयुतः पूजार्थं ब्राह्मणांस्तत्र स्थापयामास भूमिपः, तदो देवान् द्विजांस्तत्रा पूजयत्स यथाविधि न नाम भक्ति युक्तस्तांस्तेऽपि तस्मै वरान्ददुः हर्षिताश्च पुनः स्वर्गं जग्मुर्देवास्सवासवाः आर्तवीर्यो रथस्तः स ययौ स्वनगरं ततः प्रधानाश्च प्रणम्ययिनं सुहृद्भिरभिनन्दितम् अलङ्कृते पुरे सर्वे वेशयामासुरादरात् नममातरं सोऽपि पितरं हर्षसंयुतः ताभ्यामाशीर्भिरत्यन्तं मुदितश्च कृतो बभौ तद कियदि काले संस्थाप्य पुत्रं यशस्विनं स्वराज्ये कृदवीर्यश्च शस्त्रीकप्रययौवनं राजा गणपतिं तत्रा भजत्सोऽनन्यचेदशा स्वल्पकालेन शस्त्रीकसोपितं गणपं ययौ राज्ये जनाः सर्वे सङ्कष्ठीव्रतकारकाः क्रमेण गणनादं दे ययुर्दक्षप्रजापते इदं च कृतवीर्यस्य चरितं यशृणोति चा चेद् तस्य सङ्कष्टं भवेन्न च चतुर्विधम् ॐ तत्सदि श्रीमदान्त्ये पुराणोपनिषदिश्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते कृतवीज्यचरितं नाम चतुस्त्रिंशोऽध्यायः ॐ